कदलीस्तम्भसदृशं सर्वलक्षणसंयुतं गजहस्तप्रतीकाशम् वज्रप्रतिमगौरवम् अभ्युत्स्मयित्वा राधेयं भीममाघर्षयन्निव द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् भीमसेनस्तमालोक्यनेत्रे उत्फाल्य लोहिते प्रोवाच राजमध्येतम् सभाम् विश्रावयन्निव पितृभिः सहसालोक्यम् मा स्म गच्छेद्वृकोदरः यद्येतमूरुङ्गदया न भिन्द्याम् ते महाहवे क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकर्चिषः वृक्षस्येव विनिश्चेरुः कोटरेभ्य प्रदह्यतः विदुर उवाच परम् भयम् पश्यत भीमसेनात् तद्बुद्ध्यध्वम् धृतराष्ट्रस्य पुत्राः दैवेरितो नूनमयं पुरस्तात् परोनयो न यो